गुहाम् प्रविष्टव आत्म हि तदर्शन कठवलशु एवं पठ्यते वृत पिबंत सुखत लोके गुहां प्रवष परे छाया तपौ ब्रह्म विदो वदी पंचाई चिनाचिकेता तशय किजीव निर्दिष्ट उत जीवपरमात्में यदि बुद्धिजीव ततो बुद्धिप्रदानात् कार्यकरणसङ्घाताद्विलक्षणो जीवः प्रतिपादितो भवति तदपिह प्रतिपादयितव्यं येयं ये प्रेते विचिकित्सा मनुष्ये अस्ति इत्येके नायमस्तीति चैके एतद्विद्यामनुशिष्टस्त्वयाहं वराणामीष वरस्तृतीयः इति पृष्टत्वात् अथ जीवपरमात्मानं ततो जीवाद्विलक्षणः परमात्मा प्रतिपादितो भवति तदपीह प्रतिपादयितव्यम् अन्यत्र धर्मादन्यत्र धर्मादन्यत्रस्मात् कृता अन्यत्र भूताच्च भव्याच्च यत्तत् पश्यति तद्वद इति पृष्टत्वा अत्राह आक्षेप्य उभौ अपि एतौ पक्षौ न सम्भवतः कस्मात् ऋतपानं हि कर्मफलोपभोगः सुकृतस्य लोके इति लिङ्ग तच्च चेतनस्य क्षेत्रज्ञस्य सम्भवति नचेतनायाः बुद्धेः पिबन्तौ इति द्विवचनेन द्वयोः पानं दर्शयति श्रुतिः अतः बुद्धिक्षेत्रज्ञपक्षः तावत् न सम्भवति अत एव क्षेत्रज्ञपरमात्मपक्षोपि न सम्भवति चेतनेऽपि परमात्मनि ऋतपा न इति मन्त्रवर्णादिति अत्र उच्यते नैष दोषः छत्रिणो गच्छन्तीति एकेनापि छत्रिणा बहूनाम् अच्छत्रिणा क्षत्रित्वोपचारदर्शनात् एवमेकेनापि पिबत द्वौ पिबन्तौ उच्चेयाता यद्वा जीवः तावत् पिबति ईश्वरस्तु पायति पायेन्नपि पिबति इति उच्यते पाचैतज्ञपि वक्तृत्वप्रसिद्धिदर्शनात् बुद्धिक्षेत्रज्ञपरिग्रहोऽपि सम्भवति करणे कर्तृत्वोपचारात् एदांसि पचन्ति इति प्रयोगदर्शनात् न च अध्यात्मादिकारे अन्यौ क्वचिद् द्वौ वृतं पिबन्तौ सम्भवतः तस्मात् बुद्धिजीवौ स्यातां जीवपरमात्मानौ वा इति संशयः किं तावत् प्राप्तं बुद्धिक्षेत्रज्ञौ इति कुतः गुहां प्रविष्टौ इति विशेषणात् यदि शरीरं गुहा यदि वा हृदयम् उभयथापि बुद्धिक्षेत्रज्ञौ गुहां प्रविष्टौ उपपद्यते न च सतिसम्भवे सर्वगतस्य ब्रह्मणः विशिष्टदेशत्वं युक्तं कल्पयितुं सुकृतस्य लोके इति च कर्मगोचर अनतिक्रमं दर्शयति परमात्मा तु न सुकृतस्य वा दुष्कृतस्य वा गोचरे वर्तते न कर्मणा वर्धते नो कनीयान् इति श्रुतेः छाया तपौ इति च चेतनाचेतनयोः निर्देशः उपपद्यते छाया तपवत् परस्परविलक्षणत्वात् तस्मा बुद्धिक्षेत्रह उच्चयातां प्राप्त ब्रोण विज्ञा पर उचा कस्मा आत्मा हि तौ उत सन स्वभा संख्याश्रवणच सवभाव प्रतीति दृश्य है अस्तीय अन्ष्टव्युक्न्विष्य न शो व तदिह ऋतपानेन लिङ्गेन निश्चिते विज्ञानात्मनि द्वितीयान्वेषणायां समानस्वभावः चेतनः परमात्मा एव प्रतीयते ननुक्तं गुहाहितत्त्वदर्शनान्न परमात्मा प्रत्येतव्यः इति गुहाहितत्त्वदर्शनादेव परमात्मा प्रत्येतव्यः इति वदामः गुहाहितत्वं तु श्रुतिस्मृतिषु असकृत्परमात्मनः एव दृश्यते गुहाहितं गह्वरिष्ठं पुराणं यौवैदनिहितं गुहायां परमे व्योमन् आत्मानम् अन्विच्छ गुहां प्रविष्टम् इत्याद्यासु सर्वगतस्यापि ब्रह्मणः उपलब्ध्यर्थो देशविशेष उपदेशः न विरुध्यते इति एतदपि उक्तमेव सुकृतलोकवर्तित्वं तु छर्त्रित्ववत् एकस्मिन्नपि वर्तमानम् उभयोः अविरुद्धं छाया तपौ इत्यपि अविरुद्धं छाया तपव, तपव परस्परविलक्षणत्व संसारित्व असंसारित्वयोः अविद्याकृतत्वा संसारित्वस्य पारमार्थिकत्वाच्च असंसारित्वस्य तस्मात् विज्ञानात्मपरमात्मानौ गुहां प्रविष्टौ गृह्येते कुतश्च विज्ञानात्मपरमात्मानो गृह्येते विशेषणाच्च विशेषणं च विज्ञानात्मपरमात्मनोः एव भवति आत्मानं विद्धि शरीरं रथमेव तु इत्यादिना परेण ग्रन्थेन रथिरथादिरूपककल्पनया विज्ञानात्मानं रथिनं संसारमोक्षयोः गन्तारं कल्पयति स्वद्मनः परमाप्नोति तद्विष्णोः परमम्पदम् इति परमात्मानं गन्तव्यं कल्पयति तथा तं दुर्दर्शं गूढमनुप्रविष्टं गुहाहितं गह्वेष्ठं पुराणम् अध्यात्मयोगादिगमेन देवं मत्वाधीरो हर्षशोकौ जहातीति पूर्वस्मिन्नपि ग्रन्थे मान्त्रमन्तव्यत्वेन एतमेव विशेषतौ प्रकरणं च इदं परमात्मनः ब्रह्मविदो वदन्ति इति च वक्तृविशेषोपादानं परमात्मपरिग्रहे घटते तस्मादिह जीवपरमात्मानौ उच्येयात एषैव न्यायः द्वा सुपर्णा सयुजा सखाय इत्येमादिष्वपि तत्रापि अध्यात्माधिकार न प्राकृतौ सुपर्णौ उच्येते तयोरन्यः पिप्पलं स्वाद्भत्ति इति अतनलिङ्गात् विज्ञानात्मा भवति अनश्नन्यो विचाकुषीति अनशनचेतन्त्वाभ्यं परमात्मा अनंतरेच च मन्त्रे तौ एव द्रष्टुद्रष्टुविभावेन विशिनष्टे समाने वृक्षे पुरुषो निमग्नो अनीशया शोचते मुख्यमानः जुष्टं यदा पश्यति अन्यमीशम् अस्य महिमानमिति वीतशोकः इति अपराः द्वासुपन्ना इति अस्य अधिकरणस्य सिद्धान्तं भजते पयिङ्गिरहस्य ब्राह्मणेन अन्यथा व्याख्यातत्वात् तयोरन्यः पिप्रं स्वाद्वत्तीति सत्त्वम् अनश्नन्योभि चाक्षीति इति अनश्ननन्योभिपश्यति ज्ञः तव्येतौ सत्त्वक्षेत्रज्ञौ इति सत्त्वशब्दः जीवः क्षेत्रज्ञशब्दः परमात्मा इति उच्यते तन्न सत्त्वक्षेत्रज्ञशब्दयोः अन्तःकरणशारीरपरतया प्रसिद्धत्व तत्रैव च व्याख्यातत्वं तदेतत्सत्त्वं येन स्वप्नं पश्यति अधयोयं योयं शारीरः उपद्रष्टा स क्षेत्रज्ञः तव्येतौ सत्त्वक्षेत्रज्ञौ इति नापि अस्य अधिकरणस्य पूर्वपक्षभावं भजते नहि अत्र शारीरः क्षेत्रज्ञः कर्तृत्वभोक्तृत्वादिना संसारधर्मेण उपेतः विवक्षते कथं तर्हि सर्वसंसारधर्मातीतः ब्रह्मस्वभावः चैतन्यमात्रस्वरूपः अनश्नन्या विचाक्षीति इति अनश्नन्या विपश्यतिज्ञः इति वचन तत्त्वमसि क्षेत्रज्ञं चापि मां विद्धि इत्यादि श्रुतिस्मसिभ्यश्च तावता च विद्योपसंहदर्शनम् एवमेव अवकल्पते तौ एतौ सत्त्वक्षेत्रज्ञौ नः वा एवं विधि किञ्चन रजा ध्वंसते इत्यादि कथं पुनः अस्मिन् पक्षे तयोरन्यः पिप्पलं स्वाद्वत्तीति सत्त्वम् इति अचेतने सत्त्वे भोक्तत्ववचनमिति उच्यते नई श्रुति अचेतन सोक्तृत्व वक्षा मीट प्रवृत्ता किंतर्ेतन से क्षेत्र सेभोक्ृत्व ब्रह्मस्वभाता वक्षामी तदर्थ सुखदुखाद्रीयावती सोक्तृत्वये इद कर्तृत्व भोक्तृत्व सत्वक्षेत्रो इतरेतर स्वभा अविवेकृत कल्यत पर अतर संभव है अचैतनत्वात्सत्त्वस्य अविक्रियत्वाच्च क्षेत्रज्ञस्य अविद्याप्रत्युपस्थापितस्वभावत्वाच्च सत्त्वस्य सुतरां न सम्भवति तथा च श्रुतिः यत्र अन्य वा अन्यदिव स्यात् तत्र अन्यो अन्यत् पश्येत् इत्यादिना स्वप्नदृष्टहस्त्यादिव्यवहारवत् अविद्याविषयः एव कर्तृत्वादिव्यवहारं दर्शयति यत्र तु अस्य सर्वम् तत्केन कं पश्येत् विवेकिनः कर्तृत्वादिव्यवहारं निवारयति